पुरासन्न यस्मै यमाखलता देवाजयन्तास्मादाहुल्यश्चैवकुर्वतां सामगुं शल्यं विष्णुन्ते जनन्ते भुवन्त ृणाह मे पशो नाम शिवजले तस्मात् रुद्रपशो नाम शिवस्ता रुद्रो वासु लोकेभ्य प्राणुपसर्वसत्यं चभ्याद्रव्यपराण तेनान्यामावतिं पुरस्ता ज्युहूयादितन्यामावतिं पुरस्ताद् ज्युहयादन्यखं कुर्यात्माघारयते प्रज्ञा ह्ये पराङ्गतिक्रम्य जहाति पराजदेवे भलोक्य भजमानात् भ्रातुर्यान् प्रणुद पुनराजाक्रम्य प्रसरञ्जहौति प्रणद्येवे भोके भ्रातुर्यान् जित्वा भ्रातुर्य उपासेन्दस्ताभिरस्वानैताभिर्यच्च सायं प्रातरुपसदौ उपसद्यन्ते होरात्राभ्यामेव्यान् प्रणुदेया प्रात्याज्या सायं प्रोणवाच्या कुर्याद्यामुत्वा यदित्र्य इमे लोका इमानेव लोकान् प्रेणादिपद्य षड्वारतमृतोनेव प्रेणादि द्वादशायेन स्वामैज द्वादशमासामेव प्रेणा चतुर्विंशति चतुर्विंशतिरर्धमासा अर्धमासानेव प्रेमाच्यान्वेषाद्यः कामयतास्मिन्मे लोके गस्यादित्यैकमग्रे छद्वावच्छत्रेण चतुर्वा न्तरदीक्षास्मिन्नैवास्मै लोकेऽर्धुकम् भवति परोवरे यान्तरदीक्षामुः कामय कामुष् लोकेर्धुक्रस्यादितेन धत्वारोवरे यस्य वान्तरदीक्षामुष्मिन्नैवास्मै लोकेऽर्धुकम् भवते स्वर्गम् वा एते लोकञ्ज उपयुन्द्रिते धाञ्जमुन्नयते हीयत एव स नोतनेशेति सोम्येय विभाे स्वाचयतायदाश्रान्तो हीयत उदस निष्पय सहवसदि तस्मा सकृतन्ये यदा परमुन्नये कृते चैतत्वे पशूनागम् रूपगम् रूपेणैव पशूनवरन्धे यज्ञो देवेभ्यो निराय रष्टो र्यपर्यक्रामीत्वमायुपर्यपर्यच्चक्रमेदित्यहम् दुर्गेऽहन्ते सकर्तुमित्यहम् दुर्गादाहत्येति स्रवेत् दुर्गैवन्ता वोचथा वराहोऽयं वामोषः सप्तानाङ्गिरीणाम् हरस्ता वित्तम् वेद्य मधुराणाम् दुर्गे हन्तासीति सदर्भपुञ्जेन मुद्रख्यसप्तगिरे दुर्गाद्वा आहर्तावोचथायेतमाहरे तमेभ्या यज्ञ एव यज्ञमाहर्तज्ञम् वेद्यमसुरानामविन्दं तदेकं वेद्यैवे नित्यमसुराणाम् मायमग्राजेद्यावदासेन परामस्य जितावद्देवानाम् तेन ्रुवन्नस्पेव नेन्द्रस्ते लोपं कृत्वा सर्वतः परिजक्रामत्तमामविन्दन् जयदिमामविन्दन् सर्वैवतिजन्ते त्रिगुंशत्पदानि पश्चात्तिरश्चे भव जत्र पुरस्तारवास्यामे परा भवन्ति बलिहिष्कृणालिस्मादोषयः पुनराभवन्त्युत्तरं बलहणमुत्तर बलिहिष्कृणालि प्रजामे परिहरमाणमुत्तर बलिहर्यमानमेवायजमानादुत्तर उत्तरङ्गरो विस्मात् यजमानो यजमानादुत्तरः यद्वानेषामा भारवादत्ते सनिशते यद्वादशतान्नस्य मदतस्य स्तिश्रोहीनस्त्रेज्ञस्य विलोम क्रियतिश्वस्य मदतो द्वादशाहीनस्य नित्यस्य दवेद्य प्रायासोम क्रियते वत्सस्यै कस्तनो भागैः शोथैस्तनम् भदमभयत्य छत्वापत्रेण चतुर एतद्वये क्षुलभविधाम प्रदयेण प्रजातान् ैव भूय उपैस्तवथैकमे देशन्नाम वृदन्तमस्तगं कथो जायते प्रजया पशुभर्य वागो राजन्यस्य व्रतम् क्रोरेवयवागो क्रोरेव राजन्या वज्रस्य लोपं समृद्ध्यामिष्ठादेश्यस्य मनस्कदा जे प्रा ह्मणस्ते जःपयस्ते च सैवते जप्पय आत्मन् सत्यशोपयसा वे गर्भावय खलु वा एतम् भवत्या्रतो वे मधुराधेत्रिंव्रतासुरायकं व्रता देवा प्रागम् मध्यन्ति ने सायन्तन्मनोतमाधे पाकरण्यस्य रूपम् पुष्ट्यै प्रागश्च सायन्तासुरा स्ते पराभवन् मध्यन्ति मध्यरात्रे हेवानान्तरस्ते भवन् स्वर्गम् लोकमायणयदस्य मध्यन्ति मध्यरात्रे भृतं भवति मध्यतो वा अन्येन भुञ्जते मध्यद हे मदतो भ्रातरव्या विभूत्ये भवत्यात्मनापरास्य भ्रातरव्या भवति गद्भोवामिदय स्तस्मा प्रभसेश्वरो न प्रवस्तव्यमा पुनोगुप्ते दक्षिणदश्चे तद्वैषमाणस्यायतनग्युस्तगे वा यतनेभ्यावृत्य निम्याशि वैजने ै नमोत्तर यज्ञानमेतभितु वर्गन् लोकञ्च ये वैदने यस्य कृपै नमोत्तर यज्ञानमत्यभिजुवर्गन् लोकञ्च यत्याप्ये वेदने राजये भ्रातृजवन्तं पन्थावर्णानसेजातमेण रथा वेदनमाप्नोत्येव भ्रातरु व्यन्नयनं भ्रातव्यप्नोत्येकोन्न वैद्ययाजयेत् पशुकाममेकोन्नदा त्वेदे वैदनारङ्ग्योन्ता नैव एकोन्नदन्दे वैजनं पशुमानेव भवते वैद्य नेयाजयेत्सुवर्गकामन्त्रिन्नता त्वेते वैदनारङ्ग्युवर्गं लोकम न्तराह वलीयं च विर्धानं च निर्गस्यानन्तराः विर्धानं च तदश्चान्तरा तदश्च कारुभवत्यञ्चैजद्वै कृते वैजनेनाजय प्रतिष्ठा कामवेदद्वै प्रतिष्ठितं दे वयजनयत्सर्वरः समं प्रत्ययपतिष्ठते यत् कान्यान्यावोषदयोस्तुष्टत्यादये पशुकामवेदद्वै पशुना ेव यज्ञं ग्राहय यमित्ते तत्त्वेगृहेत भगजनै यत्सदृश्ये दृत्यालक्षन्नित्यैवास्त यज्ञं ग्राहय दिव्यावृत्तय भगजनययादयृत्तामय्यं पात्र वा कल्पे वामे वागुंसन् वाचेदमाहवणीया स्या आत्मतेन कारुभवत्यादे तद्वै व्यावर्तन् वयजनम् विवात्मनाभ्यादर्वेणावर्तते नैनम् पात्रेण दर्प्ये मेवापुंसन्ते कार्ये देवयजनेयाजने भूतिकामम् कार्यो वैपुरुषो भवत्येव भ्य उत्तरवेदस्य गुम्भे रूपम् गत्वा भयानन्तरा वक्रम्यातिष्ठत्य देवामन्यम् भविष्यन्ति तामुपामन्त्रयन्तरम् वृणे सर्वान्वया कामान्यष्टमधपूर्वान्तुमाज्ञे आहुरिरष्टवस्मादुत्तरवेदिम् पूर्वामज्ञान् व्याघाटयन्ति वारवदज्ञैष्यया परिमिते श्रीसाधो युक्ते नैव युक्तमवरुन्धे वित्ताय निेत्याः वित्ताख्ये नानावत् वित्ताय निेत्याः वित्तारिक्ये नानावदवदान्मित्याहनासितावदवतान् भाव्यमिद्याहव्यचितावद्विं न भो नामाज्ञे अङ्गिरयित्रेषु लोकष्टग्रयस्तानेवावरुन्धे तोष् त्याहयज प्रज्रुवासेभं द्विसत्ये देवेभ्यः क्ष देवागस्त्यैरुत्तरवेजिपामर्ती विदरामः देवानभ्यायन्द्रदा पुरस्तादपा निष्वगम् वा नित्यैरुत्तरतो यदेवमुत्तरवेणीं प्रोक्षरीभ्य एव दक्षिणदवोत्तरवेद्यत्रापेणामुच्चष्टक्षिणदवोत्तरवेद्येन नया देव तत्र क्रोरम् तत्तेन समयजयम् दृश्य सन्ध्यायाच्च देवेन अर्पयति स्वारवेदर ब्रवेत् सर्वान् प्रजाकामान्यश्च वसेदि ते देवा कामयन्तासुभान् भ्रातरुन् विभवे मे दिते स्वाहे दि असुभान् भ्रातरुयान प्रभवन्ते जहान् भ्रातरुयान विभोजाकामयन्त प्रजा विन्दे महेदिते युगवस्येर दे प्रजा ते प्रजाम् ऋत्वा कामयन्त वसोलविन्द हे जितेजुघवस्यहे जिते पशो न विन्दं दृते पशो न विद्वा गामयन्तप्रतिष्ठां विन्दे महे जितेजुवस्य किं वीरस्या जित्यव निष्पाहे जिवां प्रतिष्ठां विन्दं तं प्रतिष्ठां विद्वा गामयन्त देवता आजुरूपेयामे जिते युगवस्य देवयते युजमानाय स्वाहे जिते ्याघाले पञ्चाक्षरा पङ्क्यस्पान्तो यज्ञो यज्ञमेवा वन्दे व्याघालेक्ष्णवादक्षैर्नाधिकेव देवा भूतास्तेषां तद्भागे गन्तानेव तेन प्रेणालिपौरुद्रवान् परिधेन् परिधात्त्याग् नागरहा हन्ते देवेभ्यः हव्यं बन्धं तप्रामिहन्तसा अग्निना विवेदितं आवस्यःक्तिवारिक्षदेविमिलाय सयाम् वनस्पतेश्ववसंतां पोतुद्रौ यामोडखेड़तां सुगन्धदेविले यां परुत्तां पेटपुस्यान् तरादुर्ङ्गकेतन्देवधा प्रेषमये चन्तवनबविन्दन्तमा प्रबन्धपन आवर्तस्थः व्यन्नावयितो प्रवेद्वरं बडयेदवगहेत ्रातृहीतस्याहुतस्य बहिष्परिधिस्कन्दागधे नन्तानेव तेन प्रेणा त्व ्रवत्यन् भागम्भारान् सम्भरत्यज्ञत्सम्भरत्यज्ञान् पुरेशमचेत्यात्पुरेश यत्सम्भाराहुरेऽभ्यातरः परिधयत्पौद्रवाः परिधय बद्धमाश्चरिवर्णपाशादेवेन मुञ्चनि प्रणेन इमेध्यदेवेनत्रयम् च उत्त्वा प्रवर्तयप्रसोदेवेन त्वा यद्वैपत्रे यज्ञस्य करोति विधन्त्यान्ते ृद्भ्यां वर्त्मनाज्ञो वे विष्णुर्वक्षागस्य जुहा यज्ञवत्येव जुहोर्भवजनयज्ञं रक्षागं जग्भ्यन्ति प्रागेभरं कम्पयन्ते यज्ञाः सुवर्गमेवत्र पुष्पं पृथिव्या इत्याहवृथिव्याद्ध विरधानं दिवो वाविष्टबुध वा पृथिव्या इत्याशीर्पदयत्या दक्षिणस्य विर्धानस्य मेधेन्निहन्ति चेर्हृदयेव यज्ञस्य गिरवान आविन्द्रे बन्धो वा औपरस्तृतीयस्य विर्धानस्य पुरणाक्षमचिरद्य तृतीयं स्यावरुद्धे चिरोतज्जयस्य यद्ध विर्धानम् विष्णो नृष्णा पृष्ठमदेत्या तस्मादेताोदम् विष्णास्योष्णा ध्रुवमदेत्याह वैष्णवगम्भिरेयाहन्यम् प्रथमम् ग्रन्थिम् ग्रच्छेयाद्यतमे प्रमेय तस्मात् स विश्वस्य देवस्य तादवेदः प्रसव इत्यभ्रिमादत्ते प्रसोग्राश्विनो भावभ्यावित्याहाश्विनोऽपि देवानामद्धरि यो आस्ताम्भ्यावित्याह यत्ते वद्रि भवान्त्याह शान्ति काण्डे काण्डे वे क्रियमाणे यज्ञागं च लिखागुम् सन्ति परिलिखित परिलिखिताराधय यत्या हो वाम पुरुषोयञ्चैवान्तरायङ्ग्रेवाकृन्दवे त्वान्तरिक्षाय प्राप्थिव्येत्याः प्रोक्षति परस्तादर्वायै प्रोक्षयि तस्मात् परस्तादर्वाजे मनुष्य क्रूरमिकरोति यत्खनत्यपोपनयति शान्ते यमनयभवोर्गुदुम्बरम् समर्जयति यजमानेन संविस्मिन् दधाति परिवस्त्रणादि क्त्या निखाता स्यात् बलिरमस्तेर्यत्यन्तरिक्षम् प्रणेत्याहैत्यैद्य विनोत्येत्याहद्विदानाहस्पवे मारुतो देवानामौतुम्बलीं विनोदेव देवैनाम् विनोदि ब्रह्मवनिन् त्वा क्षत्रवणिमित्याह यथा ेवेदधृतेन पृथिवी प्रणेधामित्यौदुम् वा पृथिवी एव रथेनावश्राम यान्तमेव न्द्रियकामस्य एकादशाक्षरात् तृष्टकेन्द्रियशत भ्रातृव्यवदः पञ्चदश्या विभूत्यै सप्तदश प्रजाकामस्य सप्तदश प्रजापदय प्रजापदे राप्त्या प्रतिष्ठा कामस्यैकवितोमानाम् उदरं वेदोर्गुदुम्बरो औदुम्बरे तस्मान्मध्यतुञ्जते यजमान लोके वे हैन्द्रकुम्भिरे वदया तदोऽयम् प्रथमम् ग्रन्थम् ग्रथे याद्यत्तम्भेतमेर्यप्रमेय तस्मात् स शिरो वादे प्राणा भवाः विर्धाने खायन्ते तस्मान् प्राणाधस्ताः खायन्ते तस्मात् प्राणानक्षोहणो वरगाना वैष्णवाङ् खनामे वैष्णवाय देवलयो बलवासुरावे नर्यन्तो देवानाः प्राणेषु बलगाङ्गान् बाहुमात्रेण प्रविन्दन्तस्माद् त्रायन्त इदमहन्तम्बरमुद्दवामि यन्नः समाना विपसमाना जकारेत्यापुरुषो यश्चेव समानो यश्चासमानोऽयमेवखरदस्तमेवोद्वपरिसन्दृणत्यन्तरतः प्राणान् सम्भ्यस्मादन्ना प्राणा अपोपने तस्मादान्तरतः प्राणाय भवत्य प्राणापरवा स्त्रादित प्राणाद्यघारयदि तेजो वाज्यं प्राणा उपरवाः प्राणे श्वेमतेजो तथाधिणो वा एते यज्ञस्य यतधिषवनेन तन्त्रतन्त्रो अथोखीर्घलोभे तन्त्रज्ञो वा एतस्य यद्ध निर्धानं प्राणा उपरवाहनो अधिषवने निष्पाजन्मग्ना यदा मुखं गच्छत्यं गच्छति तस्माभिरभिरु प्रत्यञ्जः पराक्षयन्मुखे दोहं वेदेव ुहन्ति सोमप्पयोम् वेददुभदेवैना ओत्वाजानुपभवतयो सर्वे यज्ञस्य जनात्वा नै यज्ञस्य जयो नित्वाय देवा वैयज्ञम् पराजयन् ददमाज्ञेभ्या देव यज्ञस्यापराजितञ्जलाग्नेभ्राध्य विहलियदेव यज्ञस्यापराजितञ्जलेवैनं पुनस्तदेव राजित्येव खलु चिबुं सप्तन्दिव माने स्तुहाग्नेदग् विहलबर्हिस्तृणाहि पुरोलाशाकुम् अलङ्कुर्वमेवत्य पुनस्तन्वारायन्त्यङ्गारेदवने भिस्तरीकृतायां वेदविन्दने परिवेष्टन्ते सोमपीठे देवेण सोमपीठमयेच्छन्द अब्रुवन्वे कुरुध्वेत्यग्नियो वा अधिष्ठियास्तस्मा ्राह्मणोस्ते सोमपीठं तस्मात्पत्तिहाय षट् करोति सोमपीठेवावीया प्राचेराहुदेवजहवर्ये पुरश्चादसुभागस्ताभिप्राणुदन्तया प्रतिचेर्ये पश्चादसुभा न्द प्रा्याहृदयो हूयन्ते प्रत्यङ्गादिष्टिश्चाच्चैव पुरस्ताः चैलमाना भ्रादुर्व्यान् प्रदृते तस्मात् प्रजा प्रवीयन्ते प्रदेशेन गायन्ते प्राणामाले च यद्धिष्टिजाः प्रत्यङ्गे प्रमायकस्याय ज्ञस्य निर्थोऽ खलु वैनाभ्यै प्राणो वाकपानो एतद्धर्यः प्रत्यङ्गभोतामनिदर्पेण प्राणन्दध्यायप्रभाजकस्यान्नाद्धर्यरुपकाले भाग् यो वार्यम् एतद्धर्यरुपकारे तदात्रे वाचकम् सम्प्रयच्छेदुपकारुकाश्च ब्रह्मपादिनो वसन्ति ना सत्यस्थिते सोमे धैर्यः प्रत्यङ् क्षिणानि होतुमे दिया मोहितते रास्माह देवायामम्बायामम् प्राणज्ञास्यन्तीत्युत्तरेणाग् प्यजुहोदिताक्षिणायण प्राणान् सङ्करिपतिन्यज्ञेधिष्ण्य उप्यन्ते नान्येयान्यवपदिते नतान्तेयान्न निवपदिय न दिशतिते नता सुवर्गाय वा एतानि लोकायो यन्द्रे यद्वे सज्जना विद्वाभ्याङ्गागपतिरेयोः ऋद्धिवात्यग्ने त्रेयोन्द्रे वा क्रमदा ुहो ऋजुवर्गवेमैनम् लोकङ्गमयति देवहानुभेतुवर्गम् लोकम् यतो रक्षागस्य जिगागम् सन्ते सो मेधः रक्षागस्य महत्याप्तुमात्मानम् कृत्वा तु वर्गम् लोकमायम् रक्षतामनुमलाभागात्यथ वै सर्जनानि जुहो जरक्षतामहन्ते भ्यैत्याहतनोध्ये नेदाहान्यगताहोरुणस्कृते दिवावेतदाहषानात्तुराज्यश्चेत्वित्यां प्रप यम् वर्गम् लोकमे लोकस्याभिनेः ते रावण्णो वा युव्यानिन्द्रोणकरसमाग्नेपवादय लिप्त्येन तैर्गृह्णते सहोपवादयेदुपवादे सौम्यत्या प्रपादय दृष्पैनम् देवदयः प्रपादयत्तरीत्या ेवो देवानुपागानित्याह देवोक्येतन् देवानुपैदेत माम् मनुष्यो मनुष्यानित्याह मनुष्यो क्ये मनुष्यानुपैदियदेतद्य जन्म ब्रूजागम् प्रजापदुर्यमानस्य नमो देंे मेद्यामस्कारो हिदेनातृणमहशाया वरुणादर्वात राधे भूते ैमस्तुलसेनाय एवम् विद्वान् रामण्णाग्नेः सौपवासे धृणम् मलिम्लुसेना विन्दजे वैष्णव्यच्छा हुतायोपमच्छैदि वैष्णवो मे देवदयायोपस्मदेवेनम् देवदगाच्छेत्यज्ञानकान्नान्यानुपागामित्याहादिष्ट्यम् ज्ञाने वये सर्वार्ता परेरविदम् परोवहेत्याहार्माख्येन परेन्दरोवरे स्तन्दाजुषेवै देव यज्ञानेव विद्यायेत्येन जनते देवस्तानमितामध्वा त्याहवद्रोभैश्वकलः परापदे तव प्याहरे वै नमाहरतिभ्यमग्रे नै नमाहिकं झेरित्या दिवनस्पते स्पते शतवलो विलोहे कश्चनस्मादा कश्चना वृक्षाणाम् भोजागुण्ठ्रवलशा विसङ्गम् वृष्ट्या प्रसङ्गम् वृष्ट्या प्रवारिभक्त्यश्च प्रतिष्ठितस्यादित्यास्मै वृष्ट्येशमेव नस्पतीनामप्रदक्षिता प्रदक्षितभवतिजयकामस्यादित्यभ्यन्दस्मै दुष्काग्रं वृष्ट्येशमेव नस्पतीनामपधव्यं कामजेदुवान्स्याजिबुव्यन्दे बहुदाखं वृष्ट्येशमेव नस्पतीनां पधव्यितं वृष्ट्य प्रतिष्ठा कामस्तेषमेव न ष्ठितो यस्य मे भो स्वाज्योने प्रत्ययपतिष्ठति यः प्रत्यङ्गुपनस्तम् वृष्ट्युपनपञ्चारस्मे दृष्ठेभ्यङ्गामेतोपैक्षुप्पान्तो यज्ञोपैनमुत्तरो यज्ञो नैव प्रतिष्ठति धप्तारस्य पञ्चदशालत्यम् भ्रातव्यवधः पञ्चदशा्याय भवत्यै सप्तदशारम् प्रजागामस्य सप्तदशः प्रदापयः प्रदापेवा स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्याष्टाश्रद्भवत्यष्टाक्षरा गायत्री तेजो गायत्री गायत्री यज्ञमुखम् तेजसेव गायत्रिजा यज्ञमुखेन संविदः ृज त्वान्तरिक्षायत्वादिवे त्वेत्याहैभ्यदेवेन लोकेभ्यः प्राक्षति पराक्षति पराय भगिषमर्गो लोकः क्रोरमिपवानेतत्करोत्यवोपनयदिशान्त्यवनयभ्योयव यजमानेन योगः संवितोस्मिन्नोर्जन् दधादिनागम् एव निखातबर्हि <laughs> निखातस्यामेव संविताय ज्येष्ठामस्ति मन क्रियमानमेव तेजसा रक्षान्तमनक्षान्तमेव यजमान तेजसा रक्ष्य सर्वदः परमसत्यपरिवर्गमेवास्मिन् तेजो तथा लोकानां कल्पयति वैष्टरो वै तेजसैनम् देवताभिरिन्द्रियेण व्यर्थये निमित्यज्ञष्ठान्तस्याश्रिमाहवनीयानिच्छं वाचनामय त्यजसैवैनम् देवताभिरिन्द्रियेण व्यर्थयति यम् कामय नयो त्योर्ग्वेरसनाविधमानेन योपसंवितोनाभिदग्ने परिवेदिनाभिलग्ने वा स्वामोर्जन्तस्पान्नाभिलग्नवोर्जाभुञ्जदै कामयतो व्यर्थयमित्योर्ध्वां पादस्यावाजेदोर्देवैनं व्यर्थयति यदि कामय धृग पर्जन्यस्याजित्यवाजेमवो हे दृष्टिमेव नियच्छति यदि कामयेतावर्षस्याजित्यक्षतिणाष्याया वोढधीना गौरसना विश्वेशामोर्ध्वगौरसनायान्द्रस्य जसायसाध्यानामजरक्षपं समाहेण सर्वदेवत्यो यद्योप यद्योपं विना वि सर्वा देवदेवता देवास्वर्गं यन्ते मन्यन्तमनश्च नन्वा भविष्यन्ति सुभर्गं लोकमायन्तद्योपस्य यो हत यद्यूपं विनोति सुभर्गस्य लोकस्य प्रज्ञाप्त्यै पुरस्तान् स्यातिरिक्तमासीत् एतद्यज्ञस्य यदग्ना भग्निम् अधित्वा प्रहरत्यतिरिक्तमेतद्योपस्थयतो ध्वकालाक्तानि ेन प्रेणादिदेवावेदर्ग्रस्थिते सोमे प्रस्तुतो हरन् परोपन्ते मन्यन्तयज्ञवेशम् वायुजम् कर्मैते प्रस्तरग्रस्तुताम् शिष्येण पश्यान् स्वरय्योपस्तरर्गस्थिते सोऽगम्हरति जुभोति स्वरुपरि गवेषदा स्मिन् लोकः सन्धान्यत्यञ्चन विषत्तेजायन्त यदग्ना भग्निम् अधित्वा प्रभाज प्रजानाय रुद्रो माहे जग यजमानः पशुयत्पशुपालभ्याग्निम् वन्ध्ये रुद्रा यजमानमपि दध्या क्रमाजकस्याचल्वाहुराज्ञः सर्वान् देवता हविदेव पशुमानभ्याग्निं वन्धति हव्यायैवाजन्नाय सर्वा देवता प्रजायस्वेत्या छन्दाभिरेवै मन्त्रण त्यग्णे मथ्यमानायानुब्रोहेत्याहसा विक्रे वाहदप्रसूदेवैनं वञ्चति याता जानब्रूहि प्रक्रियमानाजानब्रोहेत्याकाण्डे काण्डदेवैनं क्रियमाणे समर्धय गायत्रे सर्वान्वाहदायत्र छन्दामाग्निस्वे नैवैमं छन्दसा समर्धयत्यज्ञः पुराभवत्यग्निं वधित्वा प्रहरता भवन्त विजमानमभितम् भवत भवस्तमनसा विद्या शान्ते प्रगत्यजुहोति जाता नैवज्ञा प्रियन्धामयराज्यम् प्रियणैवन्धान्ना समर्थय यथो तेजसा विषयपेति बर्हिरा दत्त इच्छदैव क्येन यो विजतो भवे ्याहो वाक्ये नानाकरो देवान् दैवेत्याह दैवेत्येता बृहस्पते देवानुभयन्ति बन्धेत्याहत्विलो वै वन्ध्य उचिरस्तस्मा देवमाह बृहस्पते धारो नित्याह ब्रह्म वै देवाना ब्रह्म दैवास्मै पशोनवरन्धे हंजाते मित्याहस्मदयत्येवैनाम् देवत्र सर्वशुरङ्गेत्याहप्रष्टामे पशूनाम् विशदानागं लोपकर्द्रोपमेव पशु तथा च देवतेन वध्वमिनीताः पशो मे देव पशो नैवास्मै रमयजि देवस्य प्रथमै दर्शनामादत्य बाहुभ्यामित्याहाश्विनो हि देवानामध्वर्योष्टा हस्ताः अभ्यामित्या ्यावित्याहयत्या हृदस्यत्वादेव हविष्ट्वारभयत्याह सत्यं वा हृदकं सत्येनैवेन हृते नारभतेहरतिवर्ध्यं हि प्रत्यम् प्रतिमुञ्च दिव्यावृत्तेभ्य प्रोक्षामे ेवेश्वरेन मिथ्यास्मरयत्येवेन उपरिष्टाक्षत्युपरिष्टा देवैनम् मेध्यम् करोति पालयत्यन्तरदेवेण वेद्यम् करोत्येवैनम् वेध्यम् करोति अग्निना वेहोवासुरानभ्यवन्नमानायानभ्यो हे या ह्यादव्यामि सप्तदशतामिधेन्वाह सप्तदश प्रजापदय प्रजापदेना ते सप्तदशवाहद्वादश मासा पञ्चत्तरः सम्वत्सरः संवत्सरम् प्रजान प्रजायन्तः प्रजाना प्रजानावेतामिधेनेनोच्चये प्रजापदस्तोष्टे वा घारमाघारयत्ततो वेदेवादिज्ञान्वश्यदयत्तोष्टे वाघारेत यज्ञस्यानुख्याज्ञाधेत्तं देवास्तो होमेनावञ्जनयत्तोष्णे वाघारमाघारे दिभ्रातनु यस्यैव तद्य पुक्ष नाम द्वादश सम्पद्यन्ते द्वादश मासा प्रेणा संवत्सरमेव उपदधा लोकस्य समष्टेतज्ञस्तवा घालयति शेषितमानस्य सर्वा देवता अवलम्भ्य जना वा एतत् पशुराघारमाघार्य पशुगौ समनख्यात्मन्येव यज्ञस्य प्राणावाजुना गच्छदा मेत्याह वाजुदेव प्राणावाजावेस्य प्राणञ्जहो त्रेरङ्गानि यज्ञपति राजयेत्याह यज्ञपतिमेवास्याजिरङ्गमयति विश्वरो भो वेत् त्वाष्ट उपरिष्टात् पशुमभ्यवमेत्तस्मादुपरिष्टात् पशुवान्नामद्यन्ति यदुपरिष्टा जकौषमध्यमेत्ययो वर्णीते चन्दाकस्यैव वर्णीते सप्तवर्णीते सप्तग्रहण्या पशवः सप्तारण्याः सप्त चन्दाकस्य वयस्यावरुध्यानेकादशप्रजादशवया भवामेकः परिषय आत्मैवानपरिषयेव ्राय धामित्या हवत्रे नैव कृत्वा रते